स्पते वाज सातये धिरे पूर्णयुज्महि अधिनोलर्यम् वसुवीरम् प्रजा ददक्षिणम् वामम् गृहपादिम् अतिसन्दिताघृणे पूरन्दानायचोदय फले षड्विम्रदामनाः विपसोवाजा सातये च निधोजहि साधम् दामुग्र नोधियाः परिदृन्धिपणीनामालायाहृदाकवे अथेमस्मभ्यम् रन्धय विपोषण्रायादुतपणेरिच्छप्रियम् अथेमस्मभ्यम् रन्धय आलीखविरागेरुपनीनाम् हृदा याकवे अथेमस्मभ्यम् रन्धय ोरम् ब्रह्म चोदानी मा राम् ऋभर्ष्याघृणे तया समस्तिराक्रेणो या ते अष्टागोपसाघृणे पशुसाधाने अस्यास्ते सुम्नवी महे उतनो घोषणम् धियमश्वसाम् वाजसामुता नृक्रेणुहि पीतये सम्भोषन्विरुषालययो अङ्गसानुशासति यये वेदमिति ब्रवत् समुपोष्णागमे महिजो गृहाभिषसति इम एवेति च ब्रवत् उष्णश्चक्रन्दरिष्यदिनकोशोपपद्यते नो अस्य व्यसते पविः यो अस्मै हविषाबीधन्नतम् पूषाबीदृश्यते रथनो विन्दते वसु पूषागा अन्वेतुनः पूषारक्षत्पर्वतः पूषावाजम् स नो नः पूषन्न प्रगायै हि यजमानस्य सम्मदः अस्माकम् स्तु मता मुदा माग्यन्ेशम् मागीम् मृषम् मागीम् संसारिवाटे अथिष्टाभिरागाहि शृण्वन्तम् पूषणम् भजमिल्यष्टवेदसम् ईशानम् राजयीमहे पूरन्तव्रते भजम् न ऋष्ये मगदाय स्तोजिहस्मासि क्षिणम् पुनो नुजो न पादाघृणे संस चामहै रथी भव रथीनामङ्क्रिरमीषासो महः राजः सखा जीमहे राजोजारागणेवसो राशिराजास्व धीपतो धीपतः सखान्वाजापस्तो रामपालिणम् स्वसूर्योलुचे मातुर्देभ्रमम् स्वसुर्जारश्रेणो न सखा मम ूषणम् रथे शम्भास्ते जानश्रियम् देवं वा गङ्गभ्राता येन मादिदेशम्बादिति पूषणम् न नतेन देव आदिशे उतघास रचिता नः सख्यातप्राचुर्युगा इन्द्रो रत्राणि जिघ्रणे उदारः पारुषे गिशूरश्च क्रम् अन्य यदद्यत्वा पुरुष्टुतभ्रभाश्रवन् नमः तत्सु नाम न साधय इयम् च साधये शीर्षो गणम् आयात्पूर्णम् आले स्वस्ति मीमः आदे आघामुपानम् अद्या च सर्वदादये स्वश्च सर्वदादये इन्द्रानुभूषणाभयम् सख्याय स्वस्तये हुभे मवाच सातये सोम मन्य उपास त्वादवे शम्भोश्रुरम् करम्भमन्य इच्छति अजा अन्यस्य बन्धयो मयी अन्यस्य सम्भृता ताभ्याम् ऋत्राणि जिघ्नते यदिन्द्रो न यद्रो मही रोषम् तमः तत्र पुरुषभत्सदा ताम् पोषस्तु मलिम् रक्षस्य प्रभयामिह इन्द्रस्य चारभामहे उत्पूरणम् विवामहेणीतो मह्यादीरम् स्वश्रये सुक्रम्बे अन्यद्य दे अन्यद्विषुरूपे अहरी द्यौरीवासि विश्वाहि मायाः शि स्वधावो भरद्राजे पूरन्निहरातिरस्तु जाः पशुभावाज वच्योयम् जिर्णो भुवाने लिश्ये अभ्यः अष्टाम् पूषासि चिरामुद्वरी वृजः सङ्ग्रक्षा नो भुवाना देव यीर्यते यास्ते पूषन्ना वो अन्तः स बुद्धेहिरण्यैरन्तरिक्षेयन्ति भिर्यासि दूत्याम् सूर्यस्य कामेन कृतश्रवा इच्छमा बन्धर्जिव आपृथिव्याय हृस्पतिर्मघवा दस्मवच्च यम् देवासो अदधुः सूर्यायै तपसं स्मञ्जम् सुदेशो वाक्रुः अदारो वालिङ्गा गीरिवाम् प्रयिवालिङ्गा वेदनिष्ठो वाम् जामि हेयामाना गो मांसाम् अश्व किन्दा अग्नि अवधे श्रीणाभयम् देवाः वामहे इयन्द्राग्नि श्रुतेषु वां सेश्वे दा जोपाकम् वद पज्रघोषिणा देवा भसतश्च इन्द्रा गीयो अश वाना रसे इन्द्राज्ञे आलियम् पूर्वागात्पद्वतीभ्यः हि द्विशिरो च त्रम् स परान्यक्रमे इन्द्रा गीनायम् धने न रोधन् मा निहो मानो अस्मिन् माहा धने परा भर्तम् गविष्टिषु इन्द्रा गीतमन्दि माघादः अपेक्षां स्याकृतञ्जिसूर्यादधि इन्द्राग् पिबसु दिव्यानि पार्थिव आन इह प्रयच्छतम् रयम् विश्वायुपोषम् इन्द्राग्निवास्तो मेभिर्वा श्रुधा विश्वाभिर्गेर्भिरागतमस्य सोमस्य पीतये स्नृतमुदस नो दिवाजमिन्द्रायो सहूरी समर्यात् रजन्ता श्रव्यस्य भूय सहस्तमासयन्तायो दृष्टमभि गा इन्द्र नो न मम स्वर् अग्नः निषस्वर् इन्द्र चित्रा अवोगा अग्ने युवसे नियुक्ता आमृत्र नाम विश्वेरिन्द्र यादन भिरगावेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः राहुवेलियो लिलमाग्ने विश्वम् पुरागृहम् इन्द्राग्नीतः उग्रा इन्द्राग्नेह वामहे कालो मृळातलीले हतो वृत्राण्या हतो दासानि सत्प्रति हतो विश्वाद्विषः इन्द्राग्ने स्तो मा अनुष विपरं शम्भुवासुरम् या वांसन्ति पुरस्पृहा नियुतो दासुर इन्द्राग् गनो समानम् सुताम् इन्द्राग्निशोदये तमेश्वयो अजिधामना विश्वाः परिश्व कृष्णा कृणोति जिह्वया युद्ध आविवासति सुम्नमिन्द्रमत्याः द्युम्नाय सुतरामः नो वाजाव आसोऽपि प्रथमर्वदः इन्द्रामग्निन्द वोढावे उभामिन्द्राग्नीना भुवध्या उभा राजा सह माधयध्यैः उभा राम्राजीना बुभा माजस्य सातये भुवेम् ैर्वसव्यैवागच्छलम् सखादौ देवौ सङ्ख्याय शम्भुवेन्द्रा गीता वामहे इन्द्रागीष्णम्भवम् व्यजमानस्य सुन्दरः गीतम् हव्यान्यागतम् पिबुरातमम् सौम्यम् मधुर इयमादभास ऋणच्युतम् दिवो दासम् मध्यस्वाय दासुषे यासस्वम् दमाचखादाभसम् दा पणिन्ता ते दात्रा नेन्द सारस्वती इयम् तृष्मेभिर्भिषकादीवादिषत्सानु गिरीणाम् दविषेभि रोष्मिभिः ीमवासे सु वृत्तिभिः सरस्वतीमाविवासेव सरस्वति देवनिधर्हर प्रजाम् विश्वस्य वृषा यस्य मालिना गुदक्षिणेभ्यो रवीन्द्रो विषमेभ्यो अश्रवो वालिनीवति प्रणोः देवी सरस्वतीवाले भृवालिनीवति भिद्यास्त्वादे सरस्वत्युपभ्रूदे धने हिन्द्र वृत्र ऊर्ये त्वन्दे वि सरस्वत्य बाबादेशुवादिनि तदा पुरुषे वः सनिम् पुरस्या नः सरस्वती होराहि वर्तनि यस्यानन्दोह स्वेदश्च रुष्णुरन्नः चिरोरू स नो विश्वादिद्भिढस्व श्रीरन्याकृताबाली अधन्न हे सूर्याः उदरः प्रिया प्रियासु सप्त श्व सासु ृषीवा निरुदयो अन्तरिक्षम् सरस्वती निजस्पादु त्रिषा सप्त सा दुः पञ्च जाता वध्वयन्ती वाजे वाजे हव्या भूय प्रजा निम्ना महिला सुम्ने अपसा अवसामस्तामा स नैवे फले कृतोपस्तुत्या सरस्वती सरस्वत्ये जिवस्य मापस्फली पर सामानाधुढस्व नः सङ्ख्या ये स्यात् ते द्रा नालिगङ्गा भद्रन्न अपि बालया जिवो अस्य प्रसन्धाश्विकैः रजुस्रा वितः पर्युनो वरांसि काये क्रमाशुचीभिश्च क्रमाणा रथस्य भानुरुजो रयोभिः श्रीतामनापोधन् मनोजवेभिः सौमद्यस्य ताम् योजरा भूषतो युशान सप्ति शुभं रक्ष विभमो वहन्ताहोता यक्षाङ्गोधसा पूजमानव्यसे या संजाते स्तु हते सम्भाविष्टापभोप दुर्ग्रहते चित्रता भृतिम् विधि अध्यस्य पुत्रा तु ग्रस्य श्रुतम्भम् मृगणाध्रिमद्रस्य इच्छो यद्रोदी प्रतियो मा देवो देवा तदावसवो रुद्र्याक्षो युजे तपूरघं दधातः या वरो न गम्भीराय रक्षे हेतिमश्चेभारैस्तर्भतार य धामद्यस्य वर्षतामपि शीर्णवावृत्तम् आप रमाभि युदमध्याभिर्नियुद्धर्या माभितोऽपि व्रजस्य दुरो वर्तम् गणते चित्रराजी वा अस्या भल्गूनाद्यो न सोमा विदन्नम स्वा आयो यो अर्वाङ्गत्या सो अस्य मन्मन्य अरम् मेघनाङ्गबाया स्मृथापि वार्याचो रिडोल यत्परो नारस्तु दुर्याय अकारि वा मन्धो बली मन्धस्तारिलय मम पुत्रा नयन् ओर्ध्वो वा मग्निरद्धरेश्वस्तात्रिरे कृताजी प्रो रथम् तस्थौ पुरुभुजा सरोति युवाम् श्रीषर्दर्शीराभिः सुरे वसु सूर्यायाः प्रवाम्बयोमकुशे लोपत्रक्षत्वाणि सुष्ठुताधिज्ञावाम् आ वयोश्वासो बहिष्ठा अभिप्रयो नत्यावहन्तु रसाम्रसो मनोजवारधीशः प्रक्षयिषुधो अनुभूर्वीः पुरुषिवान् धेनुनैषणम् वेन्द्रम् स्तुतः वामाध्ये षष्ठि सरदा च देवामनोराजिमग्भवन् उत मारिद्रे पुरा यस्य रज्जीजु मेले सदनम् च पद्मा शाण्डोलास्मद्धिष्टेन्दश वसाचो अभिराच ऋष्वाय संवा शता सत्या सहस्राश्वानाम्बुरु पन्था भरद्वाजाम् सदा स्युः आवाम् सुम्येव्याम् उदु श्रेयपुरतो लोचना अस्तु लान् सन्तः कृणो जिविश्वासुपथा सुगान्यभूधुमस्वीलक्षी नाम भोनि ृक्ष उर्विया विभास्युक्ते शोचर्भ नो जातान् आविर्वक्षः कर्मे शुम्भमानोषो येभिरोच मानामहोभिः महन्ति सीवरुणा सोरुसन्तो काम सुभराधानाम् अपे दते शूरो अस्ति ते वसत्रोन् बाधते तमो अलियो नोढा सुबोदते सुपथा पर्वतेष्वभाते हस्तरसि स्वभाव सा न आवाह पृथियामङ्गृष्वयम् देवो दुहि स वहयोक्षभिराजो लो वरम् वहसिजो त्वम् दीपो दुहितर्याः देवी पूर्वभूतौ मम् घना दर्शाभूः पुरुते वयश्चिद्वसेऽपि तु भागोऽभ्योष्टौ आसदेवाहसि भूरिपामंशो देवि दाशु क्षेमत्याः या छन्दी भानुषीरीगः राम्या स्वज्ञादिरस्तमश्रिहत्तून् विदध्यायुररुणयग्भिरश्वैश्चित्रम् भान् जुषसश्चन्द्रनाथाः अग्रे यज्ञस्य विहतो नयम् तेर्मिदा वा्यायाः हन्निदाशुष वृष सोमत्याय मघो नेर्वीरभत्प्रत्य मा नो है रत्न्याय रत्नमस्ते दावीराय दासुष वृषा सिजाय राजय सु ्राग वा मङ्गीरन्ति या अर्केना विश ब्रह्मणा च राम भवद्देवरद्वाज मा सुवीरं लैङ्ग्रे शुरुगायमधि वपुर्णदक्षी चिदृषे चिनस्तु समानम् नाम धेनुपत्युदुहेनधाः ये अत्र यो नसोऽसु जन्निधानाद्विर्या सागं ो हिरण्डां साकं नृम्णैः होस्येभिन्नसन्ति पुत्रायांश्च विदेहि माता मम महिराजे द्विशर्भमाघाद् द्राणि पुराणाः पुनाना दुःखेषु नयो नयो शमनुः श्रेया तन्ना मोक्षमाणाः मोक्षो नयेदो हसे चिदया आमधिमारुतम् दधानाः नये स्तौ नायागो मह्ना यु दुग्रास वसा धृष्णुरेणाधुजन्ध रोदसी सुमेके अथस्मैषु रोदसीष्व सोचिराम वत्सुतस्थौ न लोकाः अनेनो वो मरुतो यामो अश्व नस्वश्चेद्यः अनपरो न भीषु राजस्तूदसी अच्छा याति साधन् स्य वर्ता नो भागो शुतन जेजमाप्सुतौ व्रजम् जे रचैत्रमाग्राग्रे नरे राजमारुदाय स्वदा वसे भरध्वम् ये सहांसितः सासहम् ते ते च अग्ने पृथिवी महेभ्याः अध्वरस्येव जुक्वो ओनात्र योधु न यो न वीरा भ्राज्जन्मानो मरुतो अदृष्टा तम् रथमारुतम् भ्राजा दृष्टिम् ऋद्धस्य सूनम् हमसा वीवासे विवश्रद्धारायन्तायो मनीषाय उग्रा अस्मृतान् विश्वे वार्मिद्रावरूना वा वृध्यै सय्या रश्मे वा यम दुर्यमिष्ठाद्वाजनाङ्गुभिस्मै इयम् मद्वाम् प्रस्त्रीणीते मनीषो मप्रिया नासा बर्हि रक्ष यन्तो मित्रावरुणाभृष्टम् छद्दिर्यद्वारोध्यम् सुदानु आयादम् मित्रावरुणासु सत्युपप्रिया नमसाहूयमाना सञ्जापनश्चो अपसेवुधीयतश्चिव्यदो मयित्वा अश्वानया वाजिना भूतबन्धूय गर्भमति निर्भरध्यै प्रजामही महान्ता जायमाना घोराय ऋपवेशः विश्वे यद्वाहमम् न मन्दमानाः क्षताम् देवासो अदधुसजोराः परि यद्भूतो रोदसीचि दुर्वीरन् निश्वसो अदब्धासो अमूराः यक्षात्रम् धारयेद्यो बृम्भे चेतानुपमारीजो दृढ नक्षत्र उद विश्व भूमि माता ग्रन्थै चेजनम् प्रणध्या आयत्सर्पसभृदयः पृणन्ति न मृष्यन्ते युवनयोपाय नयो जिह्मेधेधा आयद्वां सुमेधा आरजर्वे भूत् तद्वां सहित्वम् भूत। विवन्दाजृणे विजिष्टः प्रयद्वाम् मित्रा वरुणा स्फूर्धन् प्रिया धाः इवधिता मिलन्ति न ये देवा समोरा धान अयज्ञसा च आभ्यो न पुत्रा केचिन्निविदो आद्वाम्भ्रमान्योक्षालयदेवेऽभिर्यतथो मित्वा अवोरिच्छावाम् छद्दृशो अभिष्टौ युवोर्मित्रामरुणामस्कृतो यद्गावः स्फुरान् जित्यम् धृष्णै जृणैन सृष्टिवायत्य उद्यादः स जो रामनष्टै आनयन्द्रा वरुणामिरे अद्य महे सुम्नाय महावत तार्हि श्रेष्ठा देवता तुजाशूराणाम् सवेक्षाता हि मघो नामम् यश्चात् वि सुष्णा ऋतेन वृत्रतुमस्ये विशुसुम्मे विरु वज्रेणाश्च वा साहन्ति वृत्रम् जगत्यन्यो वृजने विप्राः नाश्च जन्मनश्च वा वृथन्त विश्वे देवासो नूर्ता इन्द्रावरुणावयित्वाद्यौश्च पृथिवीनर्वी स ये सुदानस्व वाम् वरुणदास जिमन् हि सद्भिषस्तुवन्दाश्ध्वराजदेवालयम् धच्छो वसुमन्तम् पुरुक्षम् अस्मे स इन्द्रावरुणामपि श्यात् त्रयो भनक्ति वनुरामसस्तीः उतनः सुत्रात्रो देवगोपासूरिभ्य इन्द्रावरुणादयिष्यात् तेषाम् सुष्णः प्रदानासु साद्वान्व सद्योद्युम्नातिरते तूलिः नूना इन्द्रावरुणा गृणानाम् प्रयम् सौस्रपदाय देवा ग्रन्थन्तो महिनश्चिय च देवाय वरुणाय स प्रसाः अयम् च उर्वीमा इलामयम् रता कृत्वा विभात्यजरो न शोतिहा इन्द्रारुणा सुमं सुतम् सोमम् युवो रो अध्वनम् देव वीतये प्रज स्वदायादि पीतये इन्द्रावरुणा मधुमत्तमः सः सोमः सम्भाम् कर्म नासविराहीनोमीन्द्राविष्णोप स्वादे अस्य विशेषाम् यज्ञन्द्रवीनम् जथर्मष्टैर्नः प्रतिभिः पालयन्ता या विश्वासाम् ज निदानामतीनामिन्द्राविष्णो करसा सोपधाना िरस्य मानावन्ध्वप्रस्तोमासो वीरमानासो अर्कैः इन्द्रा मदपदी मदाना सोमञ्जातम् सो द्रवियोः सम्भ्रामञ्जन्द्वद्विदीनाम् सं स्तोमा समानासमुखै आ वाम श्वासो अभिमा जिषा इन्द्राविष्णो स नमादो भवन्तु दुषेथाम् निःश्वाहवनामदीनामुपब्रह्मा निशृणुतम् गिरो मे इन्द्राविष्णो तत्पनया इयम् वाम् मद गुरुचक्रमासे अग्रेणुतमन्तरिक्षम् वरीयो प्रार्थम् दीवसेनो व्रजांसि इन्द्राविष्णो अविरा सुन्धतमस्ते समुद्रस्थ कलश सोमधानाः इन्द्रा विष्णो विबे मध्वो अस्य सोमस्य दस्रा जरं नृणेधाम् आमन्धां श्रीमति राण्यग् ब्रह्मा निृणुतं हं मे उवाजज्ञधर्न परा जय जे धेन जे परा जिज्ञेकदर्शनैनोः इन्द्रस्य विष्णो य तपस्पृथेधा रेधा कृतराजीवानामभि श्रियोऽपि पृच्छे माजुदुघे सुवेदसा या वा पृथिवी वरुणस्य धर्मा नाभिष्काधिते अजरे भूरि रेदसा असश्चन्ती भूरि धारे पयस्पती कृतम् दूहाते सुकृते सुचिव्रते राजन्ति अस्य भुवनस्य रोदसी अस्मे रेदसिञ्चतम् जन्मर्मितम् यो वा मत्तो ददा स धिषे स सा साधति प्र प्रयाभिर्जायते धर्मा घृते नद्यावापृथिवी अभिवृते घृतश्रिया घृतवृजा घृतावृथा पृथ्वीवो धृपूर्ये ब्रोहि देते युद्भिप्रायैले शुनविष्णजे मधु दोद्यावापृथिवीमिक्षता मधुश्च्युदा मधुदुहे मधुव्रते न्द्रवीणञ्च देवतामलेश्वरवाच वस्मे वीर्यम् ऊर्जन्ना पृथिवी च निवताम् पिता माता विश्वपिता सुने रोदी विश्वसम्भुवासनिम्वाजम् नयि अस्मेता पुनश्च देवस्य विनायैरन्यया बाहुआयाम् स्नाय सुकृतेन पालीभिते मघो युवा सुदक्षोरज सोऽभिधर्मणि देवस्य भयं स विदुः सवीमणि श्रेष्ठे स्या मम सूरस्तदावने यो विश्वस्य द्विपदो यश्चेदने तवे अदद्धेवि स विदः पालिभिष्टम् शिवे हीरत्य हिरण्यजिह्मस्वदाजन व्यासे रक्षामायन् अघसम् सईशरदेवस्य विदातमूना हिरण्यमालिप्रति दोषमस्थान् अजो गणर्यजतो मन्द्रजिह्वा दासुषे सुभूनि वामम् उदूयामुपभक्तेव बाहूरन्यया सविता सुप्रतीकामो रोहा पृथिव्या अरीरमत्तदयगच्छिलभ्वम् वाममद्य सा वितर्वाममुष्व दिवे दिवे वाम वस्मभ्यम् सावी वाम सहिक्षयस्य देव भूरे लया धिया वाम बाधस्याम इन्द्रासो प्रथमानि यत् युवं सूर्यम् विदश युवं स्वा अर्विस्वात मां स्यहतम् विदश्च इन्द्राः सोमापासय च पुषा समुत्सूर्यम् नयसो ज्योतिरा सह उपाद्याम् स्कम्भस्कम्भेनाप्रसतम् पृथ्वी मातरम्बी इन्द्रासो मानिष्ठाम् प्रार्णाम् शीरयतम् नदी नामासा मुद्राणी वप्रसः पुनूनि इन्द्रासो मा नो मामास्वन्दर्निकवालि दुर्वक्षणासु जगृभरणापि नृतश्चित्रासु जगतिष्वः इन्द्राजो मा युवमङ्गतरुद्रमपत्यसा चे युवं जष्वन्न यो अद्रिभित्रा च मजा मृगस्पतिराङ्गिरसोऽहविष्मान् विवर्गज्वा प्रागन्म रो जीवृणभो रोवीति जनाय चित्यजीव तपु लोकम् मृगस्तनिर्देव भूतौ चकार घन्वित्राणि विपुलो दग्दीति गन्च्छत्रोन् पवित्रान् पृच्छुसाहन् बृहस्पतिः समजयद्वसूनि महोरजान् गोमा अपश्यजीतो सोमा रुद्राधारये सूर्याम्ब्रमा विष्टयो रामश्रुवन्तु दमे दमे धत्त नापदे सञ्चनुष्पदे सोमा रुद्राम् विषु ीनीवाजा नो गजाभिवेश आदे वा निर्वृजिम्बराजैरस्मे भद्रासौ स्रपदानि सन्तु सोमा रुद्रायुवमेतान्यस्मे विश्वा तनुषु भेदयानि धत्तम् अवश्यनुज नो अस्ति तनुषु भद्धम् कृतमे नो अस्मत् रुद्राम्भरो न्यशाद्वन्न मनस्य माना दीवो तस्यैव भवति प्रतीयादि समदा जया धन्वा जय तान्द्राव महि मा जन्वा नागा जन्वा ना जिञ्जाय मधन्वा नादीव्रा समदोजयेम धनशत्रो लामन्त्रेणो जन्वा न सर्वा प्रतिशोजयेम पक्ष्यन्ति प्रियं कन्ति कर्णम् योरे सहायम् योगे भज दे विनाम् समाने पारयन्ति ते आचरन्ति समाने भजोगा मातेव पुत्रम् बिभृतामुपस्थे अमशत्रून्विद्ययाम् संविधाने आग्ने इमे विस्फुरन्ती अमित्राणि बह्मीनाम् वकुरस्य पुत्रस्य भगत्या युषधिः सङ्गाप्रदानाश्च सर्वाः पृष्टे नोजयति प्रसू रथे तिष्ठन् नयति बालिनः पुरो यत्र यत्र कामय ते भि यूनामयिमानम् पनाय तमः पश्चादनो यच्छन्ति रश्मजाः त्रान् घोरान् गण्डदेश्वा रथेभिः सह वायन्तः अवक्राम प्रित्रायन्तः रथमा गमयस्य नाम यत्रायुधी तमस्याम्ब तरत्रा रसमुपं सेम विश्वाहादृशम् सतः पितरोभयो कृच्छे सुन्ता गभीराः श्रीकृयिषु बलामृद्धाः सतो वीरातसाः सोम्यावापृथिवी आप्पादुषादुरा सुबर्णम् हस्ते भृगो अस्यादन्तो गोभिः सन्नद्धा पतति प्रसू जमित्रास्मभ्यमिकाशर्म यन्धिनोऽस्मा भवतु नस्तनोः सोमाधिप्रवीनो दीनिः शर्मा यच्छतु आलम् गन् निराम् जगदाम् उपा जिघे अश्वा जिप्रदे तसोऽस्वान् समत्सु चोदरेण अनिरिव भोगैः पर्ये बाहुञ्जाया हस्तग्नो विश्वा वजुनानि विद्वान् पुमान् पुमान् सम्परि यातु विश्वदाः आला शीर्षोजस्यायो मुखम् इदम् अर्जन्या रेण सहिष्वै देव्ये दे गृहम् दे नमः ्रह्म संसिते गच्छामित्रान् प्रपद्य स्वमामेषाम् कञ्चनोच्छेदः यत्र बाणाः सम्पतन्ति कुमारावीशिखायैव तत्रा नो ब्रह्म नष्पदिलदिशः दि सर्मा यच्छतु विश्वाः धर्म निर्म नाचादयामि स्वा राजा मृते रानुभस्ता पुरोर्वरीयो वरुनस्ते गुणो हृदय धर्मो देवा मधन्धो यो रसो अरणो यश्चनिष्ठोसति देवा सर्वे धोर्म ब्रह्म ishwara jana namaha